अपराधक्षमापनस्तोत्रं न मन्त्रं नो तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातः त्वदनुसरणं क्लेशहरणं सर्वदुःखस्य हरणम्